गणेशपुराणं क्रीडाखण्डम् अध्यायं तर्टि त्री क उवाच एवं सानुदिनं पूज्य तुष्टावतं विनायकं एकस्मिन् दिवसे तस्य सख्यो दूर्वार्थमाययुः शुक्रमासवशान्नापुः क्वापि दूर्वाङ्गुरान् शुभान् शमीपत्राणि भूयांसि गृहीत्वादु तदन्तिकम् आययुः परमश्रान्ता दूर्वाभावं न्यवेदयन् शमीपत्रैः पुपूजैनं सर्वोपचारपूर्वकं दूर्वां विना निराहारात् तिष्ठत्सा नियमे रदा तस्य तुष्टिपराजामीपत्रैः समर्पितैः अशेद तत्पुरः स्वप्नमपश्यत् महाद्भुतम् अब्दान्दे सैव मूर्तिष्ठामि मां वाचमुवाचः वरं ददामि ते सुभ्रुशमीपत्रैः सुदोषितः सानो वाच यदा किञ्चित् कीर्तिः सदां पुनर्जगौ मूर्तिरुवाच वश्यस्ते भविता कान्दो भोगाश्वानेकशुभः त्वद्भक्तिनिरधपुत्रो भविष्यति महाबलः क्षिप्रसादनेत्येवं कुरु स्य सुन्दरं तुल्येश्य विषान् मृत्युर्भविष्यति पुनः क्षणादृत्समदो द्विजोऽभ्येत्यं पुनस्तं जीवयिष्यति राजकर्ता चिरायुश्च धर्मशीलो भविष्यति इदं स्तोत्रम् पठेद्यस्तु मम सन्तोषकारणं तस्य वश्यो भवेद्राजा किमन्यप्राकृतो जनः पुत्रवान् धनसम्पन्नो वेदवेदाङ्गपारगः बुद्धिश्च वर्धते तस्य मेधावृद्धिर्भवेदृढा वाचिताल्लभदे सोर्धां स्त्रिसन्ध्यं यः मम भक्तिर्दृढा तस्य मोक्षश्चान्ते भविष्यति एवं दत्त्वा वरान् स्वप्ने स देवो पिदधे क्षणाद जागृदा साश्रुनयना विस्मिता मानसेव दद दीनाधेन दी महदि अनुग्रहो महान् मह्यं यद्दत्तं दर्शनं स्वयं विनायकेन देवेन पाविदा परमादराद अद्याकं तेन देवेन सर्वभूतानुकं विना इयमेव परासिद्धिरिदमेव तपः फलम् अयमेव परो लाभो यदवोचन्मया सह प उवाच ततः प्रभादेष्णदासा परमानन्दनिर्भरा पूपूज परया भक्त्या वरदं शुभं समाप्य नियमम् मूर्तिं पूर्वस्थाने न्यवेशयद पुरोहितं समानीय पूजयामास भक्तः गणेशं मनसा ध्यात्वा वदन्ति नाम मालिकां स्मरन्ति तद्वरान् कीर्तिसमयं च प्रतीक्षति तदकाले न महदा प्रभासा निष्प्रभा भवद रक्तपित्तवदी जादा प्रारब्धादीश्वरेच्छया करपादौ च ना च तस्याः क्षरदि नित्यशः अधिबीभत्सरूपां तां तत्याजमनसापदिः न वक्ति नेक्षदे ज्ञात्वा प्रयत्नान् निष्फलान् बभून् पद कीर्तेर्घृकं यादस्तपसा सुन्दरा कृतेः कृपया गणराजस्य स्वयं वस्यो भवच्चसः स गृहीत्वा करेतां तु मञ्चक्रं समुपानयद चिक्रीडस्वेच्छया कीर्त्या तन्निष्टस्तत्परायणः न वियोगं क्षणं तस्याः सहते नृपसत्तमः सापि भोगानालङ्कारा नन्तान् बुभुजे सदी गर्भवती जान सुशुभे सुदम शुभे मुहूर्ते पुत्र जन्म राजसौ दद दान्यनेकश पुत्रजन्म प्रहृ सन् ब्राह्मणे यद दीक्षुत्प्य जादकर्मचकारस क्षिप्रसादनेत्येवं नामचक्रे तदोस्यः तुदोषपुत्रं दृष्ट्वैव नानालङ्कारसंयुतम् अधिप्रदीमदी कीर्तिरभवत्पुत्रदर्शनाद प्रभाज दुःखिता पुत्रं भवेद्राजा ज्येष्ठपुत्रोऽयमित्युद दध्योदनं तु सविषं कीर्ति पुत्राय सा ददौ सदु विह्वलदां विवृत्त नयनः क्षमाद प्रभैव चमः शब्दं कृत्वा रोदित् भृशादुरा तस्या शब्दं समाकर्ण्य कीर्ति तमगमस्तदा तमुदन्तं सापदयेन्यवेदयद सादरं विषजोऽपि ददुस्तस्मा ओषधानि नृपाज्ञया परीक्ष्य विषबाधां ते तस्मै राज्ञे न्यवेदयन् न गुणाय भवन्ति च प्रभादु धिक्रदा भर्त्रा निरस्ता दूरदो गृहाद कीर्तिस्तं बालकं गृह्य सखीभिखाननं ययौ नगराद्योजनं यादि तवात् ममारसः। अङ्गे कृत्वा तुदं बालं रुरोद शोकविह्वला मूर्च्छिता परिदा भूमौलदेव वायुनेरिदा च्युतालङ्करणाध्वस्तकङ्कणा मस्तकाञ्जला क्षणेन किञ्जिदाश्वस्था सस्मारद्विरदाननम् उत्पदे स्मरति बालचेष्टितं निघ्नति स्वहृद दैवान मगेण प्रय मुसतम नागृत्सम साधु साक्षा सूर्य इवापर गणेशभक्तर तपसा पर सतस्थ करुणीष्ट सीर्ति प्रणनामदं उवाच स्वसदीसातं गणनाथप्रसादजः अयं बालो मम मृदो जीवयैनं तपो बलाद क्षिप्रसादन यदि नाम देवाज्ञया कृतं सपत्न्या दुष्टभावेन विषमस्मै समर्पितं ततो समप्रापि मुने मरणमीदृश्यम् न सदां दर्शनं व्यर्थमिति याचे तपोधन शरणं सन्ध्यागं गेहन्दे साधवोजनाः जनाः इति तस्या वचश्रुत्वा मुहूर्तं ध्यानतत्परः अभवन्मुनिशार्दूलस्तदोगृत्समदो ब्रवीद शृणु देवि प्रवक्ष्येहमुपयम् पुत्रजीवने अज्ञानदशमीपात्रैस्त्वया पूजिविनायकः तत् पुण्यमस्य हस्ते त्वमर्पय स्वममाज्ञया तत्प्रसादाशुसुध उद्धास्यदितवाधुना साधु तद्वचनस्यान्ते कीर्तिर्हर्षसमन्विता ददौ तस्मै शमीपूजा सम्भवै पुण्यमुत्कटम् उत्तस्तौ सुकुमारोऽस्यामृतेनोक्षितो यथा साधुकर्षान्मुनेः पादौ ववन्दे शिरसा पुनः उवाच तं मुनि ज्ञादं कथं शम्या प्रपूजनं महिमानं वदमुने मुने शमीपूजनसम्भवं जन सञ्जीवितो बालो मुक्तश्च यमकिङ्करैः ज्ञात्वा तं च करिष्यामि नित्यं शम्याः प्रबूजनम् येन वै बहुथा क्रूरा यमदुधा दुरा सदाः निरस्ता गणनादस्य दुधैर्बहुरणाजिरे जीवयित्वा शिशुं मे ते गदामगदाननं येन पुण्येन बालो विषं त्यक्त्वा सुखी पुनः स जीवनुद्धिदशीघ्रं सुप्तोद्धिद इवापरः अदोऽहं परिपृच्छामि महिमानं शमीभवं क उवाच इति तद्वचनं श्रुत्वा प्रोजे गृसमदस्तुताम् गृत्समद उवाच नाम्नि यस्या कोडि पादकनाशनं महिमानं हि कस्तस्या साकल्येन वदेद् भुवि सङ्क्षेपेण दुवक्ष्यामि महिमानं यथा मधी नानातीर्थ नानातीर्थनिषेवणैः पञ्चाग्नि साधने साधनेरसु निवासर्ह्यम कालिक न तत्लम्वापनोदि योजने प्रात कालेसंध्यम वाशमी निमरे तुय वन्दये दर्चये द्वापि भक्तिभावसमन्वितः ध्यात्वा गजाननं देवं तस्य तुष्टो विनायकः ददाति वाञ्छिदानर्थानन्दे मोक्षं न संशयः अत्राप्युदाहरन्ती दी ममितिहासं पुरातनम् नारद से च संवाद चक्र से च महात्म यीगणेशणे क्रीड़ाखंडे बालसवन नाम शोध्यायः, ओ